गणेशपुराणं क्रीडाखण्डम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टि एय्ट् श्रीगजानन उवाच तपोपि त्रिविधं राजन्कायिकादिप्रभेददः ऋजुतार्जवशौचाश्च ब्रह्मचर्यमहिंसनम् गुरुविज्ञद्विजादीनां पूजनं चासुरद्विषां स्वधर्मपालनं नित्यं गायिकं तप ईदृशं मर्मां स्पृचप्रियं वाक्यमनुद्वेगं हितं हृदम् अधीतिर्वेदशास्त्राणां वाचिकं तप ईदशम् अन्धप्रसादशान्तत्वं मौनमिन्द्रियनिग्रहः निर्मलाशयता मानसं तप ईदृश्यम् अकामदश्रद्धया च यत्तपः सत्कारपूजार्थं सदम्भं तदस्थिरं जन्म मृदि प्रयच्छदि न संशयः परात्मपीटकं यच्च तपस्तामसमुच्यते विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालदः श्रद्धया यद्दानं तत्सात्विकं मदम् उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते अकालदेशतो पात्रेव ज्ञया दीयते तु यत असत्काराच्च यद्दत्तं तद्दानं तामस्संस्मृतम् ज्ञानं च त्रिविधं राजन्शृणुष्व स्थिरचेतसा त्रिधा कर्म च कर्तारं ब्रवीमि ते नानाविधेषु भूतेषु मामेकं वीक्ष्यते तु यः नाश्य वत्सु च नित्यं ीकं नृप तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितं हे दुहीनमसत्यं च देहात्मविषयं च यत् असदल्पार्थविषयं तामसं ज्ञानमुच्यते कर्म भेदतस्त्रिविधं कर्मविद्धिराजन्मये हृदं कामनाद्वेषदं भैर्यदृहितं नित्यकर्म यत् कृतं विना भलेच्छां यत्कर्म सात्विकमुच्यते यत् बहुक्लेशदकर्म कृतं यच्च चा फलेच्छया क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् अज्ञानात् क्रियमाणं यत्कर्म तामसमीरिदं कर्तारं trividham विद्धिकध्यमानं मया नृप धैर्योत्साही समो सिद्धौ सिद्धौ चाविक्रियस्तु यः अहङ्कारविमुक्तो यः स कर्ता सात्विको नृप कुर्वन्हर्षं च शोकं च हिंसाफलस्पृशं च यः अशुचिर्लुब्धको यस्तु राजसोऽसौ निगद्यते प्रमादाज्ञानसहृदपरीच्छेदपरः शठः अलसस्तर्कवाण्यस्तु कर्तासौ तामसो मतः सुखं च त्रिविधं राजन् दुःखं च सात्विकं राजसं चैव तामसं चमयोच्यते विश्ववद्भासदे पूर्वं दुःखस्यान्धकरं च यत् इच्छमानं तथा वृत्त्यावदत्ते मृदवद्भवेत् प्रसादा स्वस्य बुद्धिर्यत् सात्विकं सुखमीरितं विषयाणां तु यो भोगो भास्दे मृतवत्पुरा हालाहालमिवान्ते यद्राजसं सुखमीरिदं तन्त्रिप्रमादसम्भूतमालस्य प्रभवं च चयद। सर्वदा मोहकं स्वस्य सुखं तामसमीदृश्यम् न तदस्ति यदेतैर्यमुतं स्यात् त्रिविधैर्गुणैः राजन्ब्रह्मापि त्रिविधमो तत्सदि भेददः त्रिलोकेषु त्रिधाभूतमखिलं भूपवर्धदे ब्रह्मक्षत्रियविक्षूद्रात् धुनावदे। अंदर हाँ तरषा तो कर्मा संेपाधुना वे अंधांद्रियां क्षमासी शौच्विधानत्म वेदशास्त्रपुराणा स्मृती ज्ञानमे अनुष्ठानं तदर्थानां कर्मभ्राह्ममुदाहृदं दार्ढ्यं शौर्यं च दाक्ष्यं च युद्धे पृष्ठप्रदर्शनं शरण्यपालनं दानं धृतिस्तेजस्वभावचम् प्रभुदामन औन्नत्यं सुनीधिर्लोकपालनम् पञ्चकर्माधिकारित्वं क्षात्रकर्म समीरितं नानावस्तुक्रयो भूमेकर्षणं रक्षणं गवां त्रिधा कर्माधिकारित्वं वैश्यानां कर्म ईदृशं दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् एतादृशं नरव्याघ्रकर्म शौद्रमुदीरितं स्वस्वकर्मरदायेदे येदे मय्यार्प्याखिलकारिणः मत्प्रसादास्थिरं स्थानं यान्ति परमं नृप इति ते कथितो राजन्प्रसादाद्योग उत्तमः सा गोपाङ्गसविस्तारो नादिसिद्धौ मया प्रिया युङ्क्ष्वयोगं मया ख्यादं नाख्यादं कस्य चिन्नृप गोपयिनं तदसिद्धिं परां यास्यनुत्तमा क उवाच इति तस्य वच प्रसन्नस्य महात्मनः गणेशस्य वरेण्यस्य चकारच च यथोदितं त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ उपदिष्टं यथा योगमास्थायमुक्तिमाप्नुयाद इमं योऽप्युत्तमं योगं शृणोद्दि श्रद्धया सोपि सोप कल्यनि यहाम श्रेगम करबु योगी तदा सोपि पर सभ्य गभ्यस्य ज्ञा चाधम गुरो मुखात गणेश प्रत्यक पठते तो यहां द्विवालम यठेद यह ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यतेतरः न यत्नाैर्नव्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः न वेदै सम्यगभ्यस्थै सम्यग् ज्ञादयैः सहाङ्गकैः पुराणश्रवणैर्नैव न साधु साधुचिन्तनैः प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ब्रह्मघ्नो गुरु गुरुतल्पगमोऽपि यः चतुर्नां यस्तु संसर्गी महापादककारिणां स्त्रीहिंसा गोवधादीनां कर्तारो ये च पापिनः ते सर्वे प्रतिमुच्यन्ते गीतामेदां पठन्ति चेद् यः प्रयदो नित्यम् स गणेशो न संशयः चतुर्ध्यां यः पठेद्भ्रिया सोऽपि मोक्षाय कल्पते ततः क्षेत्रं समासाद्य स्नात्वाभ्यर्च्य गजाननं सकृद्गीतां पठेद्भ्रिया ब्रह्मभूयाय जायते भाद्रमासे सिदे पक्षे चतुर्ध्यां भक्तिमान्नरः कृत्वा महीमयी मूर्तिं गणेशस्य चतुर्भुजां सवाकनां सायुधां च समभ्यर्च्य यथाविधि यः पठे सप्त कृत्वस्तु प्रयत्नतः ददादि तस्य तुष्टोऽसौ गणेशो भोगमुत्तमं पुत्रान् पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः विद्यार्थिनो लभेद्विद्या सुखार्थी सुखमाप्नुयात् कामानन्याल्लभेत् लभेत्कामी मुक्तिमन्दे प्रयान्ति ॐ तत्सदि श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजानन वरेण्यसंवादे गुणत्रयकृतियोगो नामैकादशोऽध्यायः ॐ